श्रीहरये नमः अथ तृतीयोऽध्यायः श्रीसुक उवाच एवं व्यवसितो बुद्ध्या समाधाय मनोहृदे जजाबपरमं जाभ्यं प्राग्जनी अनुसेक्षितं ॐ नमो भगवते तस्मै यतयेतचिदात्मकं पुरुषाय आदिबीजाय परेशाय वि धीमहे यस्मिन्निधं यतश्चेदं यनेदं ययितं स्वयं योऽस्मात् परस्माच्च परः तं प्रभद्ये स्वयम्भुवं यस्वात्मनीदं निजमाय यार्पितम् क्वचित् विभाधम् क्व स आत्ममूलो वधो मां कालेन पञ्चत्वमितेषु कृत्स्नसो लोकेषु पालेषु च सर्वहेतुषु तमस्ततासीद्गहनं गभीरं यस्तस्य पारे बि विराजते विभुः न यस्य देवा ऋषयः पदं विदुः जन्तुः मीरितुं यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः समाभतो दिदृक्षवो यस्य पतम् सुमङ्गलम् विमुक्तसङ्गामुनयः सुसाधवः भने भूतात्मभूता सुहृदः नmathbbद्यते यस्य च जन्म कर्म व न नाम रूपे गुणदोषये भव तथापि लोकाव्ययसम्भवाय य स्वमाय यातानि अनुकालं तस्मै नमः परेशाय ब्रह्मणे अनन्तशक्तये अरूपायोरुपाय नामाश्चर्यकर्मणि धमः आत्मप्रदीपय साक्षिणे परमात्मने नमो गिरां विदूराय मनसश्चेतसामपे सत्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता नमः कैवल्यनाथाय निर्वाणसुखसंविदे नमः शान्ताय गोराय मूढाय गुणधर्मिणे निर्विशेषाय यशाय नमो ज्ञानगणाय च क्षेत्रज्ञाय नमस्तुभ्यम् सर्वाध्यक्षाय साक्षिणे पुरुषाय आत्ममूलाय मूलप्रकृतये नमः सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे असदाचाययोक्ताय सदा भासाय नमः नमो नमस्ते किल कारणाय निष्कारणाय अद्भुतकारणाय सर्वागमाम्नाय महार्णवाय नमोपवर्गाय परायणाय गुणारणि छन्नचिदूष्मपाय तक्षोपविस्फूर्जित मानसाय नैष्कम्यभावेन विवर्जितागम स्वयं प्रकाशाय नमस्करोमि मातृप्रपन्नपशुपासविमोक्षणाय मुक्ताय भूरिकरुणाय न मूलयाय स्वांसेन सर्वधनुर्भृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहदे नमस्ते आत्मात्मजाप्तगृहवित्तजनेषु सक्ते दुष्प्रापणाय गुणशङ्कविवर्जिताय मुक्तात्मविस्वहृदये परिभाविताय ज्ञानात्मने भगवते नम यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति किं त्वाशिशोरात्यमिदेहमव्ययम् करोतु मेधप्रधयो विमोक्षणम् एकान्तिनो यस्य अद्यद्भुतं तश्चरितं सुमङ्गळं गायन्त आनन्तसमुद्रमग्नाः तमक्षरं ब्रह्मपरं परेशम् अव्यक्तम् आध्यात्मिकयोगम्यम् अतीन्द्रियं सूक्ष्ममिवातिदूरम् अनन्तमाद्यं परिपूर्णमीडे यस्य ब्रह्मादयो देवा वेतालोकाश्चराचराः नामरूपविभेदेन पल्ग्वया च कलया कृताः यथार्चिषोऽग्ने सवितुर्गभस्तयो निर्यान्ति संयान्ति असकृत्स्वरोचिषः तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः कानि शरीरशर्गाः स वै न देवासुरमर्त्यतिर्यं दुहो नायं गुणःकर्म निषेधशेषो जयधातशेषः जिजीविशनाकमिकामुया किम् अन्तर्भगिश्चावृतये भयोन्या इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षं सोऽहं विश्वसृजं विश्वम् अविश्वं विश्ववेदशं भिष्व भिष्व विश्वात्मानं अजं ब्रह्म प्रणदोऽस्मि परं पदं योगरन्धीतकर्माणो कृधियोगविभाविते योगिनोऽयं प्रपश्यन्ते योगेशं तं नतोऽस्म्यहं नमो नमस्तुभ्यम् असह्यवेग शक्तित्रयाय अखिलधीगुणाय प्रपन्नपालाय दुरन्तशक्तये गदिन्द्रियाणाम् अनवाप्य वर्त्मने नायं वेतस्वमात्मानं यच्छक्त्यागं धियागतं तं दुरत्ययमहात्मयं भगवन्तमितोऽस्म्यहम् श्रीशुक एवं गजेन्द्रम्बुपवर्णितनिर्विशेषं ब्रह्मातयो विवितलिङ्गविधाभिमानाः नैतेयधोपश्रुपूर्निखिलात्मगत्वात् तत्रा किला मरमयो हरिराविरासीत् तं तद्वधार्थम् उबलप्य जगन्निवासः स्तोत्रं निशं यदि विजये सखसंस्तुतवद्भिः सन्दोमयेन गरुडेन समुह्यमानः चक्रायुतोऽप्यगमतासु यतो गजेन्द्रः सोऽन्तः सरस्युरुबलेन आर्थो दृष्ट्वा गरुद्मति हरिं कवोपातचक्रम् उत्क्षिप्य साम्बुजकरं गिरमाखक्रश्चरात् नारायणो किलगुरो भगवन् नमस्ते नारायण किल गुरो भगवन् नमस्ते नारायणा किल गुरो भगवन् नमस्ते तं वीक्षीटितमजस्तखसावत् तीर्य सग्राकमासु सरसकृपयो जहार ग्राहात् विपाटितमुखातरिणा गजेन्द्रम् सम्पश्यतां करिरमु मोच इति श्रीमद्भागवते महापुराणे अष्टमस्कन्ते गजेन्द्रमोक्षेण तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहाराज के जय